नारायणोपनिषत् श्रीगृभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तो सह वीर्यं करवावहे तेजस्विनावधितमस्तु मा विद्विथा वहै एं ॐ शान्तिः इस्टान्त हरि ओम अथ पुषोह वै नाराणो काम यत प्रजा सृजेती नारायण प्राणोजा मन सर्वेद्रिया चंवायुर्ज्योतिरापृथ्वी विश्व धारिणी नारायणा ब्रह्मा जायते नारायणाद्द्रो जायते नारायणादिन्द्रो जायते नारायणाद् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवसर्वाणि च नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिश्च नारायणः शक्रश्च नारायजणः द्यावापृथिव्यौ च नारायजः कालश्च नारायजः दिशश्च नाराजणः ऊर्ध्वश्च नाराजणः अधश्च नाराजणः अन्तर्बिश्च नाराजणः नारायण एवेदगं सर्वं यद्भूतै यच्च भव्यं निष्करो निरञ्जनो निर्विकल्पो निराख्यातशुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य वेद स विष्णु भवती स विषु भवती ओमग्रे व्या हेत्त नमे पश्चा नारायणाएतपरिष्टा ओमकाक्षर नम है अक्षरें नारायणाएति पंचअक्षराणे एतद्वै नारायणस्याष्टाक्षरं पदम् यो ह वै नारायणस्याष्टाक्षरं पदमध्येति अनपब्रुवः सर्वमायुरेति विन्दते प्राजापत्यगं राजस्पोषं गोपत्यं ततो मृतत्वमशते ततो मृतत्वमशत इति एवं वेद प्रत्यगानन्दं ब्रह्मपुरुषं परमस्वरूपम् अकारौकारमकार इति तानेकदा समभर तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनान् ॐ नमो नारायण यणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकं गमिष्यति तदिदं परं पुण्डरीकं विज्ञानघनम् तस्मात्तदिदा बन्भात्रम् ब्रह्मण्डो देवकी पुत्रो ब्रह्मण्डो मधुसूदनो सर्वभूतस्थमेकं नारायणं कारणरूपमकारपरब्रह्मो एतदथर्वशिरो योधीते प्रातरधीजानो रात्रिकृतं पापं नाशयति सायमधी दिवसकृतं पापं नाशयति माध्यन्दिनमादित्याभिमुखोऽ धिया न पञ्चपातकोपपातका आत्रमुच्यते सर्ववेदपारायणपुण्यं लभते नारायण सायोजमवाप्नोति नारायण सा योजममाप्नोति य एवं वेद इत्युपनिषत् ॐ शान्ते शान्ते शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु